मुद्गलपुराणं खण्डं सवन् विघ्नराजचरितम् अध्यायम् नैन् क्षेत्रवर्णनं श्रीगणेशाय नमः कश्यप उवाच ममासुरं शान्तियुतं वीक्ष्य देवा सुहर्षिताः प्रणम्य मुनिसंयुक्तात् पुपूजोर्विघ्ननायकं पूज्यतं पृष्टरोमाणः पुनः पुनप्रणम्य भावतः तुष्टोवोर्विघ्नराजं ते बद्धाञ्जलय आदराद देवर्षय ऊचुः साम्यस्वरूपं द्विविधेषु संस्थं द्वन्द्वैर्विहीनम् परमार्थभूतं आनन्दनाथम् निजभक्तपोषं तं विघ्नराजम् सततं भजामः सर्वात्मकं बिम्बमधो विधाय तेनैव द्वन्द्वं रजितं गणेश सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजम् सततं भजामः भेदैर्विहीनम् परमप्रमेयम् साक्षिमयम् कृत्य विनायकत्वम् तत्रैव नित्यम् समभावसंस्थस्थम् विघ्नराजम् सततम् भजामः धुण्डे त्वया भेदयुधं द्वितीयं सृष्ठं परं ब्रह्मविहारदं च उदानरूपं त्वमसि प्रसंस्तस्थं विघ्नराजं सततं भजामः त्वन्मयया मोहयुधे परेशे अन्योन्यमादौ मिलिदे प्रकाशिन् तत्र स्थितस्त्वं च विमोह शून्यस्तं विघ्नराजं त्वत्प्रेरितं द्वन्द्वमयं परं च सोऽहं तथा बिन्दुमयं चकार तत्स्थः समत्वेन विहारकारिं स्तं विघ्नराजं ताभ्यां मिलित्वा रचितं गणेश विश्वं चतुष्पादमयं पुराणं तत्रैव तेनाथ प्रकाशभावस्थं विघ्नराजं सततं भजामः एवं स्वतोद्धानबलेन कृत्वा साम्यस्वरूपेण विहारकारिन् तद्भावशून्योऽसि गजाननत्वं तं विघ्नराजं सततं भजामः एवं परे शाधिपदेन त्वं तादृश्यो नो गणराजभासि साङ्ख्यस्वरूपं प्रवदन्ति वेदास्तं विघ्नराजं सततं भजामः दोषैर्विहीनं प्रवदन्ति साङ्ख्यं तस्मान्न विघ्नेश्वरसांख्यसंस्थः उत्थानहीनो न भवेत् कदापि तं विघ्नराजं सददं भजामः स्वानन्दवासीगणनायकस्त्वमानन्दरूपोऽसि वदन्ति वेदाः द्वन्द्वप्रकाशश्च तदात्मशून्यस्तं विघ्नराजं सततं भजामः नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन लक्ष्य विघ्नराजं सततं भजामः तोदुम्न शक्ताः प्रभवन्ति वेदा हे रम्भमाव्यं प्रणमामहे त्वां तेनैव तुष्टो भवदेवदेवतं विघ्नराजं सददं भजामः सर्वात्मकं त्वां प्रवदन्ति सर्वे योगीन्द्रमुख्याः प्रभुदासभूताः तत्रैव ते ध्यानमपारमेवं तं विघ्नराजं सततं भजामः तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः तत्रैव भक्तिं गुरुदे सुभक्तस्थं विघ्नराजं सततं भजामः देहस्त्व सद्ब्रह्ममयश्च देयं सद्रूपतुण्ठं गजवाचकं ते योगे तयोस्त्वं च विभासि देवस्थं विघ्नराजं सददं भजामः कल्याणनं त्वं प्रवदन्दिते न योगमयं हृदिस्थम् सिद्धिप्रदं बुद्धिप्रचालकं वैतं विघ्नराजं सततं भजामः ब्रह्माहमेवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदन्ति त्वन्मायया मोहितच्चेदशस्ते तं विघ्नराजं सततं भजामः सत्ताविहीनान् प्रकरोषितां स्त्वं विघ्नप्रदानेन महानुभाव स्वार्थैर्विहीना प्रभवन्ति पूर्णास्तं विघ्नराजं सतदं भजामः अङ्घ्रिं पुनस्ते शरणाश्रितास्ते विघ्ने न हीना प्रभवो भवन्ति विघ्नेश नामासि ततस्त्वमेव तं विघ्नराजं सततं भजामः एतादृशं विघ्नपदिं कथं वै स्तोदुं वयं योगमयं भवामः वेदानचक्रामनसाख्यलभ्यं तं विघ्नराजं सततं भजामः कश्यप उवाच एवं स्तुत्वा गणाधीशं प्रणेमुरमरर्षयः तुष्टस्थानब्रवीदेवो विघ्नेशो ब्रह्मणां पदिः विघ्नेश उवाच देवर्षयोवरान् ब्रूद महाभागा हृदीप्सितान् दास्यामि स्तोत्र तुष्टोऽहम् भक्र्या स्वाधीनतां गतः भवत्कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकं यः पठेच्छृणुयाद्वापि स सर्वं प्राप्नुयात् परं विद्यामायुर्धनं धान्यं यशोधर्मं तदर्थकं कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्र पाठतः पुत्र पौत्रादिकम् सौख्यमारोग्यादिसमन्वितम् विजयम् जयकाले जस्तोत्र पाठाल्लभेन्नरः चाडनाद्यं चानेन सिद्धिम् भविष्यति परकृत्यप्रशमनम् भवेच्च मरणादिकम् कारागृहादिजापीडा नश्येदनेन निश्चितं सहस्रावर्तनादेव मुनयो नात्रसंशयः संशयः एकविंशतिवारं चैकविंशतिदिनानि च पठेद्वा शृणुयात्सोऽपि मनसीप्सितमाप्नुयात् चेदं भविष्यति निरन्तरम् अपराधादिकस्यापि नाशकं चास्तु सर्वदा एवं गणपदेर्वाक्यं श्रुत्वा तममरर्षयः प्रणम्य देवमूचुस्ते वचनं भक्तिसंयुता देवर्षय ऊचुः यदि प्रसन्नतां यादौ विघ्नेशस्ते पदाम्भुजे भक्तिं देहि विशेषेण वरं नान्यं वृणीमहे ममा सुरस्त्वयानाथशान्तियुक्तकृतो महान् तेन स्वस्था नगा सर्वे भविष्यन्ति दिवौ कसः मुनयकर्मकर्तारो जनाः स्वधर्मसंयुधाः भविष्यन्ति गणाध्यक्ष वृणीमहि किमप्यहो कृधं त्वया वराणां यत् कार्यं विघ्नविदारण तथेधि तानथोक्त्वा सौ देवे सोऽन्तर्दधे प्रिये देवामुनिगणैः सार्धं त्वं प्रणम्य विशेषतः ह्यदयुक्ता गणाध्यक्षम् तापयामासुरादराद हिमाचलस्य मध्ये तत्स्थानं विघ्नपदेः परं सम्पूर्णमुत्तरदिशि सर्वसिद्धिप्रदायकं भाद्रशुक्लचतुर्भ्यां तु मध्याह्ने स्थापि दः परः विघ्नेशो मुनिभिः सार्धं सर्वसुखावहः मध्ये विघ्नपतिः साक्षाद् वामे सिद्धिस्थिता स्वयं बुद्धिश्च दक्षिणाङ्गेदु नागेश्च पुरतः क्षेत्राणि पृष्ठभागे च प्रयागादीनिमानदे संस्थितानि प्रसेवार्थं विघ्नराजस्य नित्यदात् वामे शम्भुमुखा दक्षिणाङ्गे मुनीश्वराः पुरदोगणराजस्य सेवन्दे तं सुलोचने असुरा नाकमुख्याश्च गन्धर्वाप्सरसस्तथा नानासिद्धगणस्तत्र वसन्ति सेवनोत्सुकाः गङ्गाध्यासरितस्तत्र भक्तियुक्ता वसन्ति च अन्ये नानाजनदेवि वसन्ति भक्तिकारकाः दशयोजनविस्तारम् क्षेत्रस्य मुख्यभावदः चतुरस्रम् महाक्षेत्रं ज्ञातव्यं स्वसुखप्रदम् तत्र गणेशतीर्थं तु सर्वसिद्धिप्रदायकम् जन्तव्ये स्नानमात्रेण भुक्तिमुक्तिप्रदं भवेद अन्येषां विष्णुमुख्यानां तत्र तीर्थानि योगिनां स्थितानि स्नानमात्रेण स्व अन्यदेवादिकानां ये भक्ताः क्षेत्रे मृदा ते सर्वे शुक्लगत्या च ब्रह्मभूता भवन्ति वै यात्रां तत्प्रकुर्वन्ति भक्ता भाद्रपदे प्रिये शुक्लपक्षे चतुर्ध्यां वै महोत्सवपरायणाः क्षेत्रवासिजनाः सर्वे देवर्षिगणसंयुधाः परस्परं विशेषेण बोधयन्ति गजाननं विघ्नराजचरित्राणि कथयन्ति परस्परं सा श्रुनेत्रा भवन्त्येते भाक्रिया विघ्नेश्वरस्य च यस्मिन् कस्मिन् दिने देवी यात्रां कुर्वन्ति मानवाः इह भुक्त्वा किल भोगानन्दे मुक्तिमवाप्नुयुः ये तत्र विघ्नराजं तु न मनसिप्सितं लब्ध्वा सुखयुधा सर्वे भवन्तेनात्र संशयः यत्र कुत्र स्थिता देवीभक्ता विघ्नेश्वरस्य च ब्रह्मभूतान् सन्देहो दर्शनात् पावना नृणां मानुषं देहमाप्यैव न पश्येद्विघ्ननायकं पशुतुल्यस्य विज्ञेयो जन्म तस्य निरर्थकम् एवं खण्डेषु सर्वेषु द्वीपेषु क्षेत्रमुत्तमं विघ्नराजस्य विप्रेषयै कृदमुत्तरदिग्भवम् ब्रह्म भूयप्रदं क्षेत्रं वैघ्नेशं च चतुष्पदं तस्य किं वर्णनं कुर्यां यत्र वेदा विसिस्मिरे सङ्क्षेपेण मया प्रोक्तं क्षेत्रमाहात्म्यमुत्तमं विस्तरेण न कोऽप्येतद्वर्णयितुं क्षमो भवेद् एवं विघ्नेश्वरो देवो नानाव नानावतारकारकः भक्तानां रक्षणार्थाय भक्तानां हरणाय च अवतारा असंख्यादा विघ्नेशस्य महात्मनः तेषां चरित्रकं वक्तुं न समर्थोऽहमञ्चसा इदं ममासुरस्यैव शमनं कथितं मया चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकं शृणुयाद्यपढेद्वापि भयं तस्य ममात्मकं न भवेदीप्सितं सर्वं लभेद्ब्रह्मसनातनम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे खण्डे विघ्नराजचरिते ममासुरशान्तियुक्त विघ्नेशचरितक्षेत्रवर्णनं नाम नवमोऽध्यायः ॐ